था, था विश्वचेमथा जे ज्येष्ठता जिम्बरिषदम् स्वर्विदम् प्रीचीनम् वृजनम् दोहसे गिरासुञ्जयम् तमनुजा सुवर्धसे श्रिये सुदृशीरुपरस्य या स्वर्भिरोच जा मानः ककुभामचोददे सुगोपासिनदभाय सुक्रतो परो माजाभित आसनामा ते अत्यम् हविः सचते सच्चधातु चारिष्टगातुः सहोदासहो भरीः प्रसस्रा नो अनो बृषाशिशुर्मध्येयुवाजरो विसृहाहितः प्रपाजेते सुयुजो यामन्विष्टये नीचीरमुष्मै यम्यावृता वृथा सुजन्दोभिः सर्वसासैरभीषुभिः कृर्मानिप्रबले मूषायति सन्दर्भोराणस्तरोभिः सुते गृहम् वयाकिनम् चित्तगर्भासु सुस्वरोः भसे धारवाकेष्वीर्यथशोभसेवस्वपत्नीरभिजीवो अध्वरेदृजे दादृगुच्छते संजा स्वा महीमस्मभ्यमुरुषामुरुध्रजो बृहत्सुवीरमन भच्छुतम् सहात्यग्रर्जनी वान्वातिस्पृधः समर्यता मनः सा सूर्यः कविः म् संरक्षन्तम् परि विश्वतो गजमस्माकम् सर्व्यायां समस्य यतुनस्य केतुना ऋषिश्वरञ्च रसु नाम ते राधृस्मिन्दापश्यया विदस्य स्वयम् वह देशोऽकरत् समुद्रमातामवतस्थे अग्रिमा न ऋष्यदि हार्दिक्रवनस्य रेजते यत्रा मिजते भूतबन्धनि स क्षत्रस्य मनसस्य चित्तीभिरेवापदस्य यजतस्य सद्रेः अवत्सारस्य स्पृणवामरन्वभिः सविष्ठम् वायुम् विदुषाचिदर्थ्यम् सेना क्षो वोमदो विश्ववारस्य यजतस्य माजिना समन्यमन्यमर्थयन्तेत वे विदुर्विषाणम् परिपालान्ति ते सदा प्रमोजतो विद्विषोऽद्बाहुवृत्तः श्रुतवित्तर्यो वत्स च प्रत्येति भाति च यदीम् घनम् भज ते सु प्रजावारो यजमानस्य सत्त्वा सामूधस्सधिया मुदञ्जना भरद् धेनोरसा वच्छश्रिये पजो नु भ्रुवानो अध्ये दिनस्व यो जागारतमृजः कामयन्ते यो जागारतमुसामालयन्ति यो जागारतमयम् सोमा आहत बाहमस्मि दख्येऽन्योगाः का। अग्निर्जागारथमृजः कामयन्तेऽग्निर्जागारथमुषामानियन्ति अग्निर्जागारथमयम् सोमा आहत बाहमस्मि न्योगाः जागर्षित्तम्भुवा ने जातवेदो जागर्षेत्रे जादेहविष्मान् ीलम् हविश्रद्धधानो विजेनापासि गुह्यण्डा विष्यण्ण त्रिमुखैरायत्या उषसोऽ अपावृतवृतिनिरुत्सर्गाद्विदुरो मानुषीर्देवावहत् विसूर्योऽमतिम् न श्रियम् धन्वन्नसो नद्या अह्खादो अल्नास्तूने वसुमेताग्रम्भ दद्योः अस्मा उक्थाय पर्व तस्य गर्भो महीनाम् जनुषे पूर्यायपर्वतो जिही दशाथ दद्यो राविवासन्तो दशयन्तभूम सूक्तेभिर्वोवचोभिर्देवजुष्टैरेन्दान्वा अगति अवासे हुमध्यै मुक्तेभिर्युष्मा कवयस्य यज्ञा आविवासन्तो मरुतो यजन्ति येतोन्वा अद्य शुद्ध्यो भवामप्रदुक्षुणामिन वा मावरीय आरे द्वेषां सुसनुतर्दधामायामप्राञ्चो जमानमच्छताधियम् कृणमासखायोपया माताङ्गो यजा मनुर्विशिशिप्रञ्जिगा जामङ्कुरापापरीषम् अनो नो दत्र हस्तगतो अध्रिरार्चङ्गे न दश मासो न भग्वा ऋतम् यदि सर्वमागाविन्दद्विश्वानि स्याङ्गीराश्चकार विश्वे अस्याम् युषिमाहीनायासं यद्गोभिरङ्गीरसो नवन्द उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमाविदग्गाः आसूर्यो यातु सप्ता स्वाक्षेत्रीर्घयाते रघुश्येनः पादयदन्धो अच्छायुवा कविर्दीत यद्गोषु गच्छन् आसूर्योरुलक्षुक्रमन्नो युक्तयद्धरितो बीतपृष्ठा <us> उद्यान नामयम् दहीरा आजृण्वती रापो अर्वागतिष्ठन् अप्सुदझिरेणाम् ययाता रन्दसमासो अजाधिया अजाधिया तुमात्यम् हयो न विद्वायुजि स्वयम् धुरिताम् वावि प्रतरणीमस्य नास्यावस्विवृतम् आवृतम् पुनर्विद्वान् ततः पूरयेत ऋजुनेषति अग्न इन्द्रवरुनमिन्द्रदेवाः शर्धप्रयम् तमारुतोदविष्णो उदानाद्या रुद्रोदग्ना पूषाभगः सरस्वतीयुषन्त ्राग्निमिद्रावरुणादीम् स्वपृथिवीं जामरुतः पर्वता अपः विष्णुम् पूषणम् ब्रह्म नस्पतिम् भगम् नुशंसवितारामोदये विष्णो ऋतवातो अश्रुधो द्रविनो दाबुधो मोमयस्कर उदर्भव उत राजेनो अश्विनो दत्व श्रोतविद्वानो मंसते उदत्यन्नो मारुगमद्दिभिक्षयम् च रासते बृहस्पतिः शर्मोदनो यमद्वरूध्या अम्बरो नो विद्रो अर्जमा ु शस्त भुवनन्दन भगवत्ता स वसा वसा ग्रव्यचादिति श्रोतुमेऽहम् देवानाम् पत्नीरुसतीरवन्तु नः प्राभन्तु नस्तु जेवाज सादये याः पार्थिवासो या अपामपि व्रते तानो देवी सुपाः शर्म यच्छत बुतज्ञन्द्राण्या यश्विनीलाट् आरोदसीवरुणानि श्रृणोतव्यम् तु देवीव्यजनीनादयमनाः हरिः ओति जयतिभ्रुवाना मही माता दो हितुर्बोधयन्ति आविवासन्ति युवजर्मानीषा पितृभ्यासदनेदोभाना अजिरासस्तद पयीयमाना आदश्चिवांसो अमृतस्य नाभिम् अनन्ता स पुरवो विश्वतस्यीम् परिद्या वा पृथिवीयम् दि पन्था आह वृक्षा समुद्रो अरुणस्सु पर्णः पूर्वस्य चत्वारायीम् बिभ्रदिक्षे मयम् तोदसगर्भम् चरसे धापयन्ते त्रिधातवः परमा अस्य सद्यो अन्तान् इदम् विपचनादश्चरम् दियम् द्वेयतीम्बृतो मातुरन्येयिहेह जातेय आसबन्धुम्बदेधियो अस्माम् दिवस्त्रा पुत्राय मातरो वयन्ति उपप्रक्षेपृष नो मोदयमाना दिवस्पथ बद्धो यन्त्यच्छ तदस्तु मित्रावरुणा तदग्नेसंयोरस्मभ्यमिदमस्तु सस्तम् ीमहि गाधमुत प्रतिष्ठाम् नो दिवे बृहते सादनाय कदुप्रिया यथाम्ने मनामहे स्वक्षत्राय स्वय से महे वयनम् आमेणस्य रज सोयभ्रहा अपो वृणानाभितनोति मालिनीत्रजनम् वीरभक्षणम् समान्या दया विश्वमारजाः अपो अपाचिरपरा अपेयते पूर्वाभिस्तिरते दे देवयर्जुन आग्रवभिरहण्येभिरक्त्युभिर्वरिष्ठम् वज्रमादिघर्तिमाजिनी शतम् वायस्य प्रचरान् स्वेदमे संवर्तयन्तोऽपि च वर्तयन् मस्य रीतिम् परशोरीवीकमङ्ख्यस्य वर्पसः स चायति विवक्षयम् रत्नम् दधाति भरभूतये विषे स जीह् च दूरणीकरिज के चारुपसानोऽयतनम् नरिम् न तस्य विद्मपुरुषत्वयम् यतो भगः सिदतिवार्यम् देवम् वो अद्य स वितारमेषे भगम् चरत्नम् विभजन्त मायो आवान्नरापरुभुजापवृत्याम् निवेदिवेचिदश्विना स क्षीयन् रतिभिप्रजा नवसूरस्य विद्वान् सूक्तैर्देवम् स वितारम् दुभस्य उपब्रवीरनमसा विजानम् ज्येष्ठम् च रत्नम् विभजन्त मायोः अत्र जादयते वार्याणि भूषा भगो अतिजर्वस्तवुस्रः इन्द्रो विष्णर्वरु नो मित्रोऽग्निरहानि भद्राजनयम् तदस्माह तन्नोऽसपितावरुत्वम् तत्सिन्धवजिषयन्तो अनुग्मन् उभयद्वोचे अध्वरस्य होता राजस्यामपदयोजरत्नाः रजे प्रजे न मो दुर्ये मित्रे वरुणे सूक्तवाचः अवै त्वभुम् कृणुता वरी यो दिवः पृथिव्यो रवसावदेम सूक्तान् ते तृणान्यज्ञावरण्ये वोचकेऽपि ृणैरध्ययनम् सतैतम् शृणानि भवते भव वा कूपतटाकानाम् समुद्रम् गच्छस्वा विश्वो देवस्य नेतुर्मर्तो गुरीतसख्यम् विश्वो राजती शुध्यति ज्युम्नम् वृणीत पुष्यसे एते देवनेतर्ये चेमान् नुजसे ते राजाते आव्रचेत अतो न आर्णदितः पत्नीर्धशस्यता आरे विश्वम् पचेष्टाम् द्विषो यूयोतयूयूभिः यत्र वह्निरभिहितो रुद्रभद्रोऽण्यः पशुः द्रुमना वीरपश्चोर्नाधीरे रसनीता एष ते देवनेतारथस्पतिः सम्रजिः सम्राजेषां स्वस्य इष स्तुतो मलामहे देवस्तुतो मलामहे अग्ने सुतस्य पीतये विश्वैरूपे विरागहि देवेभिर्हव्यदातये हृदधीतयागतसत्यधर्माणो अध्वरम् अग्ने पीपदजिह्वया विप्रेभिर्व्यसञ्जत्रादर्जामाभिरागहि देवेभिः दे। सोम वीतये अयम् सोमश्च मूर्सुतो मत्त्रे परीषिच्यते प्रिय इन्द्रायवायवेजमाजाहि वीतये जुषानो हव्यदातये विवासु तस्यान्धसो अभिप्रजाः इन्द्रश्च वाजवेषाम् सुतानाम् पीतिमर्हतः ताञ्जुषेधामरेपसाभिप्रजाः सुता इन्द्राय वाजवे सोमासो दध्यासिलः निम्नम् नयन् दिसिन्धवोभिप्रयाः स योर्विश्वेभर्देवेभिरश्विभ्याम् उषसा सजूः आयाह्यज्ञे अद्रिवत्सुतेरन सजोर्मित्रावरूणाभ्याम् सजो सोमेन विष्णूना आयाह्यज्ञे अद्रिवत्सुतेरना सजूराचैर्वसूभिः सजुरिन्द्रेण बाजुना आयाह्यज्ञे अद्रिवत्सुतेरणा स्वस्ति नो मिमीतामश्विनाभः स्वस्ति देव्यदितिरनर्वणाः स्वस्ति कूषा असूरोदधातु नः स्वस्तिद्यावापृथिवी सुचेतुना स्वस्तजे वायुमुपब्रवामहे सोमम् स्वस्ति भुवनस्य यस्पतिः बृहस्पतिम् सर्वगम् स्वस्तजे स्वस्तज आदित्यासो भवन्तु नः श्वे देवानो अद्या स्वस्तये वैश्वनरो वसूरग्निः स्वस्तये देवावन्त्र स्वस्तये स्वस्ति नो रुद्रः पात्वम् हसः स्वस्ति मित्रावरुणा स्वस्ति पथ्येरेवति स्वस्ति अइन्द्रश्चाग्निश्च स्वस्ति नो अदिते गृधि स्वस्ति पन्थामनो चरेम सूर्या चन्द्रमसामिव नर्दतताग्नराजानता सङ्गमेमहि स्वस्तजनन्तार्क्षमलिष्टनेमिम् महद्भूतम् वा यसम् देवताना असुरग्ननिन्द्रसखम् समत्सु बृहज्ज सोनावामिवारुहेम अम्भोमु च माङ्गिरसङ्गयम् च स्वस्त्या त्रेयम् मनसा च तार्क्ष्यम् प्रजातपाणिः शरणम् प्रपद्ये स्वस्ति सम्बाधेष्वभजम् नो अस्तु कस्या वा स्वधृष्णुयार्चामरुद्धर्वाभिः मे अद्रोघमनश्वदाम् श्रवो मदन्ति यज्ञाः ते यः स्थिरस्य सव सः सखा यः सन्ति धृष्णुया ते यामन्ना दृषद्विनत्मना पान्ति शश्वतः ते स्पन्दासो नो क्षणो तिष्कन्दन्ति सर्वीः मरुतामधामहो च मन्महे मरुत्सु बोधीमहि स्तोमम् यज्ञम् च धृष्णुया जे े ये मानुषायुगापान्तिमर्त्यम् ऋषः अर्हन्तो ये सुदानवो नोऽसामिषवसः प्र यज्ञम् यज्ञयेभ्यो दिवो अच्चामरुद्भ्याः आरुग्णैरायुधानरानिश्वानिष्टिर सृक्षत अन्वे विद्युतो मरुतो जज्ञदीरिवभानुरत्तत्मना दिवः ृथन्तपार्थी वाजपुरावन्तरिक्षः वृजने वा नदीनाम् सधस्ते वा महो दिव छर्धो मारुतमुच्छम् सत्यसर्व समृग्भवसम् उतस्मते शुभेन राष्ट्रस्पन्द्रायूचदर्त्मना उतस्मते परुष्ण्यामूर्णावसरसुन्ध्यवः उदव्या रथा नामद्रिम् भिन्दन्त्योजयसा आपथयो विपथयोऽन्तस्पथा अनुपथा एतेभिर्मह्यम् नामाभिर्यज्ञम् विष्टार वोहते अथा नरोऽन्योहते धा नियुत वोहते अथा पारावता इति चित्रारूपाणि दर्श्या छन्दस्तु भक्कुभञभुत्सभाकीलिनो ऋतुः ते मे केचिन्नदायूमा आसन् ऋषि द्विषे यदिश्वा ऋष्टिविद्युतः कवयः सन्ति वेधसाः तर् ऋषे मारुदम् गनन्नावस्या रमया गिरा अच्छ ऋषे मारुतङ्गनन्दारामित्रण्णयोषणा जिवो वा धृष्णमोजसातुतादिभिरीषण्यत नूमम् बाणयेषाम् देवाच्छानवक्षणा नानास चेतसूरिभिर्यावश्रुतेभिरञ्जिभिः मे बन्द्वेषे गाम् वोचन्तसूरयः प्रश्निम् वोचन्त मातरम् अथा पितरविष्विनम् रुद्रम् वोचन्दसिक्वा सः सप्तमे सप्तशाकि नजेकामेका सदा ददुः यमुनाजामधि श्रुतमुद्राधो गव्यम् मृजे निराधो अश्वम् मृजे कोवे दजानमेषाम् को वा पुरा सुन्नेश्वा समरुताम् ैतान्वथेषु दश्रावकथायुः कस्मै दस्रुदासे अन्वापजिलाभिर्वृष्टयः सः ते मा आहुयया यजुर्भजभिर्विभिर्मदे नरो मर्या अरेफ सिमान् पश्यन्निजृष्टिः ये अञ्जुष ये वाजीषस्वभाववस्रक्षु ऋग्मेषु खादिषु श्रयारथेषु धन्वासु जुष्माकम् स्मारथानोमुदेतधेमरुतो जीरदानवः वृष्टिद्यावो यदिरेव आयनवो दितासुषे को समचुचवोहर्जन्यम् सृजन्ति रोदासी अनुधन्वा नायन्ति दृष्टजाः ृता नास्सिन्ध महा क्षोदसारदप्रस्र नो यथा स्यन्नाश्वायुवाध्वानो विमोचने वि यद्वर्तन्तयेण्याः आयादमरुतो दिम आन्तरिक्षा जमाधृता मा वस्थादपरावताः मा वो रसानि दभागु भागोर्मा वसिन्ध्यीरमत् मा वः परिष्ठात् सरजः पुरीषन्यस्मे यत्सु न वस्तु वः वः सर्धमृधानाम् गणम् मारुदम् न व्यासीनाम् अनुप्रजयन्तिर्धम् शर्धम् वयेषाम् रातम् रातङ्गनम् गनम् ससस्तिभिः अनुक्रामे मधीतिभिः कस्मा अद्य सुजाताज रातहौ याय प्रजायुः येनायामेन मरुताः येन तोकायतन याय धान्या अम्बीजम्बहध्वे अक्षीतम् अस्मभ्यम् तद्धत्तनय ध्वजीमहे राधो विश्वायुसौभागम् अतीयामनिदः स्थिरः स्वस्तिभिर्हित्वा मध्यमराति दृष्टिसंयोुसृभेषयाम् श्याम मरुतः सः सुदेवः स महाजति सुवीरो नरो मरुतः स मर्त्याः यन्त्रायद्धे श्यामते स्नुहि भोजान्स्तुपतो अस्य यामा निरङ्गा भो नजपासे यतः पूर्वाञ्जेव सखी कणुः वय गिरागृणी भानवजिमाम्बाच मनजा पर्वतच्युते घर्मस्तु भेदिवापृष्टयज्वाले जुम्नस्रभसेमही नृम् न मज्जद नरो मरुतस्तविषाभूदन्यवो भजो वृधो अश्वयुजः परिज्रयः संविद्युदास्वरञ्जावोमना परिज्रयः विद्यन्माहसो नरो अस्मादिद्यभो वा दृषो मरुतः पर्वतच्युता अब्दया जन्मुहुराह्रादुनीवृधस्तनजाुदोजसः या अर्दोऽद्राव्या निसोऽप्या जा अन्तरिक्षासि हृदयः वायीम् यथा विदुर्गाणि वरुतोलाहरिष्यता तद्वीर्यम् वो मरुतो महित्वनम् दीर्घम् ददानसूर्यो न यो जलम् एता न जामे अग्रे भीतसो जिषो न स्वधाम् अभ्राजिसर्धो मरुतो यदम् न सो पनेवा वृक्षम् कामने वा अथास्मानो अरमादिम् सजोरश्चक्षुरिबलिम् तमलो नेण सुखम् न स यते मरुतो रहन्यतेन श्रेधति नव्यधते नृष्यति स्य राजमुपदस्य नोदयऋषिम्भाजम् राजानम् वासुषु दधायुत्वम्बोग्रामजितो यथा नरोदर्कबन्धिना संयतिनासो अश्व पृथिवी मध्वो अन्धसा प्रवत्त्व प्रभत्वा दीर्घ्योर्भवति प्रयद्भ्याः प्रवत्त्वदिपथ्या अन्तरिक्षा प्रवद्वन्तः पर्वदाजीरदानवः यन्मारुदस्व भरदस्व नरः सूर्यगुदिते मदथादिवोनरः नभो स्वाश्रथयन्ता रसिश्रदः सद्यो अस्याध्वानः पादमस्मृत हंसेषु वरिष्टयः पत्सु कालयो वक्षस्व ऋक्मारुतो रथेशुभा अग्निर्भ्राजसो विद्युतो गभस्योशि प्राशीर्णस्य अन्ना कामर्यो अग्रे भेदशो जिषम्पालम् मरुतो विधूरुतः समच्छन्द वृजनादित्यषन्त यत्सरम् द्विघोषम्बि राजपाः युष्मा दत्तस्य मरुतो वि न यो युच्छाति तिष्योजिवो स्वेरारन्दमरुदः सहसृशम् यूयम् रजम् मारुतर्गवीरम् यूयमृषीमपथसामाविप्रम् यूयमर्वन्तम् भरताय बाजुम् योजम् धत्थ राजानम् सृष्टिमन्तम् तद्भो यामिन्द्रवीनम् सद्यभूतजोना स्वा अर्णतनामरे जिदं तु मे मरुतोर्यतापचो यस्य तरे मतरसा सदम् हिमा प्रयजवो मरुतोभ्राजदृष्टयो बृहद्वयो दिशे दुःपवक्षसः शुभम् यातामनुरथावृत्सता स्वयम् दधिभ्येदवीषीम् यथा विदबृहन्महान्तपुर्भिया विराजथा उदान्तरिक्षम् अमिदेव्योजसा शुभम् यातामनुरथावृत्सत सागम् जाता शोभः सागमुक्षिता श्रेजिता प्रातरम् वावधर्मः विरकिनः सूर्यस्य वरस्वयः शुभम् जाता मरुता आभूषेण्यम् वो मरतो मे वनन्ति दृक्षेण्यम् सूर्यस्य भज क्षणम् कुतो अस्मामृतत्वे दधा अवृत्सदा उदीर यथा मरुदम्रो योज वृष्टिं वर्षयथा पुरीषिणः नभोदस्रा उपादस्यन्तिरथा अवृत्सदान्धोषु निरञ्जनान् प्रत्यग्रामध्वम् विश्वा युत्स्पृथो मरुतोशुभं जाता मनुरथा वृत्सदा न पर्वता नद्यो वरन्त भोजत्रा चिद्धमरुतो गच्छसे दुदत् उदद्यावापृथिवी याचना परिशुभं जातामनुरथा वृत्सदा यत्पूर्वम् मरुतो यच्च नूतनम् यदुद्यते वस भो यच्च शस्यते विश्वस्य तस्य भवता वे न वेदशुभम् जातामनुरथा वृत्सत व्रत नो मरुतो मा वाधिष्ठलास्मभ्यम् सर्व बहुलम् वियन्तन अधिस्तोत्रस्य सख्यस्य घातनशुभम् जातामनुरथा वृत्सत यूयमस्मान्नमस्यो अच्छादिरम् अधिभ्यो मरुतो गृणानाः जुषध्वम् यावभयं स्यामवता अग्ने सध्वम् तमागम् पृष्टम् रुक्मेभिरञ्जिभिः दिशो अद्य मरुतामपह्वजे दिवश्चेद्रो जनादशि यथा जन्मन्यासे हृदादुराससा दे ्यागमन्तान्मद्ध भीमसन्द्रः नृष्णा देव पृथिवीपराहतापदम् चेत्यस्मदा रिक्षो न वो मरतस्विमीवाो गौरीव भीमयोः निजे घृणन्त्यो च सावृथा गावो रदुर्धुराः अस्मानं अस्मान्याम् पर्वतङ्रिम् रक्षा वयन् दियामाभि उत्तिष्ठ नूनेषाम् सोमे स्वभुक्षितानाम् मनुताम् पुरुतमभूजाङ्गवाम् सर्गामिवये युङ्धाम् हेरुषी रथे युग्धम् रथे रुहिताः शुम्भङ्गरी अधिराधिरिवोलावे महिष्ठाधिरिवो बुदस्य वाज्यरुडस्तु विश्वनिघस्मधा मा भोजामेषु मरुदश्चिलङ्कारु चोदज रथन्नमारुदम् वयम् श्रवस्यु माहु वामहे आयस्मिन् तस्य शरणानि विभ्राती सजा मरुत्सु रोदसी र्धम् मरुचे शुभम् स्वेषम् पादस्य माहुवेन् सुजाता सुभगा महीय चेत च मरुत्सो मे आरु इन्द्र वन्दस्य जोषो हिरण्यरथा सुविताय गन्तन यम् व अस्मत्प्रति हर्यते मले तृष्णेन जीवगुत्सा आदी मन्दरिष्टिमन्दो मनीषिनः सुधन्वालीषु मन्दो निषङ्गिनाः स्वनिमातरस्वायुधा मारुतो याचनाशुभम् पर्वादान्तासु निगोपनालिलतेजामानोभिया गोपजाषीम् प्रश्निमातरः शुभे यदुग्राः पृषातीरयुग्भम् पादृषो मरुतो वर्णनृजो सदृश सुभेदसः विशङ्गा स्वारुणा स्वा अरेप स प्र त्वक्षसो महिला द्यौरी गोरमाः गुरुद्रत्साञ्जिबन्तः सुभस्वेश सन्तु अनबभ्रराधसः सुजातासो जनुषा ीर्षुधारथेषु गो विश्वा गोमदस्वा भद्रथावत्सुवीरम् चन्द्रभद्राधो मरुजो ददानः ततश्चिन्न कणतरुद्रियादो भक्षीयभो भवसो देव्यस्य अजेन रोमरुतो मृता दस्तु वीमघातो अमृता किरजो बृहद् गिरजो तमो नन्तम् सुरे जलम् मालोपन्नश्व स्वामृतस्य स्व राजा ङ्गलं दल सङ्ख्याधुनिव्रतमाजि नन्दातिवारम् भजो भूभोजे अमिता महित्वा वन्दस्व विप्रतु विराध सोदृन् आवो रघासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति अजं जो अग्रमा चेतञ्जोषध्वो युवानः यूयं राजानमिर्जञ्जनाय जत्राः युष्मदे निष्ठिगा बाबुजूतो युष्मत्सरस्व मरुद सुवीराः अराजिवेद च रमागे वा प्राजायन्ते अग्रमहोभिः विष्णे पुत्रावूपमासोरभिष्टास्त्वया मत्या मरुदसंक्षो या जरश्वर्मरुदो रथेभिः क्षोदन्तवो ऋयोऽस् वृढवक्रन्दुद्योः प्रतिष्ठयामन् पृथिवीजीरेषाम् भर्तेच्छवोधुः वर्षं स्वेदं चकृरुद्रिया सह अजेन वृणता न स्पृवीमघासो अमृता नृतज्ञाः सत्यश्रुतः कवयो युवाणो बृहद्गिरयो बृहदुक्षमाणाः प्रपस्पर क्रांसुभि्या नृतम्भरे क्षन्ते अश्वाम् करुणन्तारजो न स्वम् भानुम् श्रसयन्ते अन्नवैः अमादेशाम् धिजसा भूवीर्यो न पूर्णाक्षरदिव्यथिर्यति दूरे दृशोजे चिदयम् भये माभिरन्तर्महे विदधे जेति नराः गवामिव श्रियसे शृङ्गताम् सूर्यो न चक्षूरजसो विसर्जने अत्या इव सुब्भावस्तनवर्यायव श्रियसे चेतधानो भो महान्ति महता मुदस्रवर्कस्काव्या मरुतः को हौंस्या ूयम् गभूमिम् किरणम् नरे जत प्रयद्भरद्वेषापने अस्वायि वे वेद नृषादः समन्धवसूरायिव प्रयुधः प्रोदयुयु मर्यायिव सुवृधो वावृधूर्य प्रवीणन्ति दृष्टिभिः ते अज्येष्ठानिष्ठा च बुद्धितो मध्यमासोमः स्वामिवावृदो सुजातासो जनुषा वृष्णी मातरो दिवो मर्जा नो अच्छाधिजोलये श्रेणी पौत्ररो जसान्तान् दिवो व्रे रतः नो नस्परि अश्वासये रामुभजे यथा विदुः प्रभर्वतस्य न भनोङ्ग्रजुच्चवो त्यो रतीर्वेदये नः सन्तानो चित्रा वुषसो यदन्ता आयच्च वर्दिव्यम् कोश मेदर्शे रुद्रस्य मरुतो गणाना ईणे अग्न्यम् स्वयसन्नमोऽ सप्तो विता यत् ब्रह्मा रथैरिवप्रभरे वा जयद्भ्यः प्रदक्षिणम् मरुताम् सोम आयेतश्च प्रणादेषु स्रो सुखेषु रुद्रा मदतो रथेदुग्राजिगते निपोभिया पृथिवी चिरेजते बर्वादश्चित् वर्वादश्चिन्मयि वृद्धो बी वाय दिवश्चिक्सानुरेजतस्वने वा यत्क्रीलाथमरतरक्षिमन्ता वाजिमसध्र्यम् कोधवध्वे ेयीवता इवतासो स्वदाभिस्तन्वाह्यभिश्रे श्रिये श्रेयाम् दस्तव सो रथेषु रत्नामहां श्रे तनूषु अज्येष्ठासो अकारिष्टा स एते सम्भ्राता लो वाविधः सौभागाय युवापिता स्वपा रुद्रजे सुना यदुत्तमे मारुतो मध्यमे वा यद्वापमे सुभगासो दिविष्ठ अतो नो रुद्राबुधभान्वा अस्या क्ले मित्ताद्धो यजाम आग्निश्चयम् मारुतो विश्ववेदसो दिवो महध्वबुत्तरादधिष्णुभिः हे मन्ददानाधुना यो रिसादसो वा ग्ने मरभ्यः स्वभजर्व क्वाभिः सोमम् विभवन्दसादो गान श्रीभिः पापकेभिर्भिस्वमिन्देभिराजु सर्वैः स्वानर प्रतिभा केतुना सजुः तेष्ठानर श्रेष्ठदमाजिरेकायजा परमस्याः परामदाः क्वा अमो स्वाक्वा कथम् सदो नोर्यमाह जोदयेषाभि सखा निनरो पुत्रगृथेन जनयः परा वीरासयेत न मर्याः सोभद्रजानयः जा। अग्नितपोजदा सनत्साश्वम् पशुमुदगव्यम् पसमुदगव्यं वायम् श्यावा स्वस्तुता जायो वीरायोपर्वृहद् उदत्वा स्त्रीशी शशी पुंसो भव दिवस्यसि अदेवत्रा दाशसाः विष्यन्तम् विकाबिलम् ये वत्र क्रीणुते मह उदघादे वो अस्तु दुमाङ्गिकभ्रुवेपणि स वैराजे उतमे उत मे रमज्जुवनिर्मा मन्दुषीकृति श्यावाजावर्तनिम् पुरोही जामुजय दुर्मित्रा य दीर्घजासे यो मे ते नूलान् सदम् वैदस्वर्यसा दत् हरन्त जीवमम्भनाः यजीम् वहन्तो मधिरम् मधु अत्र स्रवांसिलधिरे येषाम् शिलाधिरोद श्रीविभ्राजम् तैरथेष्वा दिविरुग्मयी वोपरि युपासमारुतो गणत्वेषरसो अनेध्यः सुभय्यावाप्रातिष्कृतः को वेद नूनमेषाम् यत्रामदम् विधूतजः ऋतजाता रेव इच्छाधिया श्रोता रोजाबाहूदिषु तेनोपसूरिगाम्याः पुरश्चन्द्रारिषादः आजग्रियासोपवृत्तन एतम्ये स्तोमायोर्मेलाभ्यायपरावह गिरो देवि रचीरिव उत मे मोचता रुजि सुतसो मे रथा भीतौ ह कामो अपवेजि मे येषागो मातीर्नो